यहै. ऊड्यं�वां चार्वां चार्यएतै जापनी है? आपनी है यह जिस हर्पिस्री 5 unn doubts अडे, प्रेश जापनी 15 कुड़ ब brick करष़्चै cuál अपना, च्रेए!! यह ब्लाष् cents ना whole comments 15 कॉड़ बप्साईवतै मृत्योपासादिव ततो झटिति मृत्युपाशादिव प्रमुच्य सरसैव समधिरूढरूपान्दरा प्रमुद्र तरसैव सा समधिरूढरूपान्दरा प्रमुच्य सरसैव सा समधिरूढरूपान्तरा अधस्तषि विकसदष्ट बाहुस्फुरन् अधस्त अधस्त महायुधमहो गदा किल विहाय सा दिद्युदे महायुधमहो गदा विद्युदे महायुधमहो गदा किल विहाय सा विद्युते तदो भवधु मासु गो जडु देव मृत्युपाच दिव प्रमुच्य तरसैव समधिरूढरुबान्दर ततो भवतुपासको झटिति मृत्युपाशादिव प्रमुच्य तरसैव सा समधिरूढरूपान्तरा अधस्तुधमहो गदाय साद्युदे अधस्तषि विगसदष्टबाहु किल विहाय सा दिद्युते अद् गता वा गतो वा गतोवा वा गतो वा महायुधमहो गता वा गतो वा まあ ähm इंगे ट्रंप ते माय लास्ट लाइन लास्ट लाइन महायुध महो खींचिट अंजुलना लास्ट महायुध महो महा मद गदा एनोटल गयना पाएन ना अम्मा वंद गसो एनदा गदा ना मा, ना मामी ुधे <laughs> तदो भवदुवासगो जडिति मृत्युपाशादिव प्रमुच्यतरसैव समधिरूढरूपान्धरा अधस्तबाहुस्फुरन् महायुधमहो गता किन विहाय साधिुते तदो भवदुवासौ जडिजे मृत्युपाशादिव प्रमुच्यतर सैवरूबान्धर अधस्तकस बहु स्मृन् महायुध महो गील विकास विद्युदे तो भवतु पासको झटिति मृत्युपाशादिव प्रमुच्यतरसैव सा समधिरूढरूपान्तरा अतस्तलमजग्मुषी विकसदष्टबाहुस्फुरन् महायुधमहो गदा दुरा दिव्य दे भवदन्तचिन्त्यतां देहिदम् भवदन्त <laughs> <laughs> षि त्वदनुजा विषि मरुगणयुधा भुवि च मन्दिरा न्येयुषि मरुगणयुधुवि च मन्दिरे न्यान्दिरे न्यायुषि मन्दिरा मन्दिरा मन्दिरा ने नेयुषे मन्दिरा नेयु मन्दिरा नेयुषि मरुगण मरुगणपणायुध भुवि च मन्दिरा नेयुषि मरुद्गणयुता मरुद्गणपणायिता किं मया विनिष् भवदन्तरकंसदे भवदन्त स्मृशं सतरकंसते किमु मया विनिष्पिष्टया बभूव भवदन्तयां ते हितं चिन्त्यताम् ओकेभूव ओके स्पृशं सतर कंसते किमु मया विनिष्पिष्टया बभूव भवदन्तकचिन्त्यतां तेहितम् इति तदनुजामिवो गलमुदीर्यतं जमुषि मरुद्गणपणायुविज मन्दिरा नेयुषे इति तदनुजामिव गलमुदीर्यतं जमुषे मरुगणपणायुद बुविज मन्दिरा नेयुषे इति त्वदनुजा विभो कलमुदीर्यषि मरुद्गणपणायिता भुवि च मन्दिराण्येयुषिंसकर निशंसतर कंसदे किमुनिष्पिष्टया बभूव चिन्त्यतां देहिदम् इति त्व षिद्गणपनायि मियुषिंसदे किं मया भिन्द्य ते हिद इदिभो गलमुदीर्य तं जग्मुषि निष्पिष्टया बभूव भवदन्त चिन्त्यताम् ते हि तम् इति त्वदनुजा विभो कलमुदीर्य तम् जग्षि मरुद्गणपणायिता भुवि च मन्दिराण्येयुषि धी ते हिडि विषे मधुगण भुवि च मन्दिरा नेयुषे बुभुजागे पुनर्गात्मजा वजन मिरिद बुभुजागे पुनर्गात्मजा वचन मिरिता बुभुजा प्रलं बगभूतना प्रमुगदानवानिनः प्रलम्ब भगबूदन मानिनः प्रलम्बभकपूतना प्रमुखदानवानिर्भयाः भवन्निधनकाम्यया जगदि बभ्रमुर्निर्भयाः भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः कुमारकविमारकाः किमिव दुष्करं निष्कृपैः गे पुनर्गामजा भजन मिरिदा बुभुजा प्रलम्ब भगभूदना प्रमुदान वा मानिनः सगे पुनरगात्मज भजन मिरिद बुभुज प्रलभ प्रल प्रलम्ब प्रजे पुनरगात्मजा वचनमीरिता भूभुजा प्रलम्बभकपूतना प्रमुखदानवामानिनः भवन्निधनकाम्यया जगदि बभ्रमुर्निर्भयाः कुमारक विमारकाः किमिव वदु, दुष्करं निष्कृैः भवन्निधनकाम्यया जगदि बभ्रमन्भयः कुमारकविमारकः किमिव दुष्कर निष्कृपैः भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः कुमारकविमारकाः किमिव दुष्करं निष्कृपैः सगे पुनरगात्मजा वचनमीरिदा बुभुजा प्रलम्ब भगपूतना प्रमुखदानवा मानिनः भवन्निजनकाम्यया जगरिब्रमुर्निर्भयाः कुमारकविमारगाः किं वुष्किरं दुष्करं निष्क्रिमैः भगे पुनरगात्मज भजनमिदिदा बुम्बुम्बुज प्रलम्ब भगभूदना प्रमुखदानव निनग भवन्निधनका वर्तते अत्र भवन्निधनकाम्य भवन्निधनकाम्यया जगदि बब्रुवृभयाः कुमारकविमारकाः किमिव दुष्टकृः जगे पुनरगात्मजा वचनमीरिता भूभुजा प्रलम्बकपूतना प्रमुखधानवामानिनः काम्यया जगति बभ्रमुर्निर्भयाः कुमारकविमारकाः किमिव दुष्करम् निष्कृपैः वन् टु त्रि पुनरगे अम गदा न वा मानि भवन्धनकामे जगदि भव्यमारकविष्करं निष्परमये पशुभ मन्दिरे त्वयि मुकुन्द नन्दप्रिया तदपशुभ मन्दिरे त्वयि मुकुन्दरे त्वयि किञ्चिदं जल्पदे प्रसूति शयने शये रुदति किञ्चिदं किञ्चिदं त्रिबुद्ध्यवनिद जनैस्तनयसंभवे घोषिदेबुद्ध्यवनिद जनैस्तनैस्तनै निता जनैस्तनयः सम्भवे घोषिते <laughs> मुदा किमु वदाम्यहो सकलम्कलमाकुलं गोकुलम् मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् शुपमन्दिरे मुकुन्द नन्दप्रिया शयने शये रुदरि किं जिदं जल्पदे तद पशुमन्दिरे त्वयि मुकुन्द नन्दप्रिया प्रसूदि शयने शये किं जिदं जल्पदे तदपु पशुपमन्दिरे त्वयि मुकुन्द ै मुकुन्दनन्दप्रिया प्रसूति शयने शये रुदति किञ्चिदञ्चपदे वदाम्यभो सकलमाकुलं गोकुलम्बुध्य वनिदा जनैस्तनयसंभवे गोषिदे मुदा किमु गुलं। वद ुलम् गोकुलम् विभुव्यवनिता जनैस्तनयसम्भवे घोषिते मुदा किमु वदाम्यहो सकलमाकुलम् गोकुलम् तदपशुवमन्दिरे त्वयि मुकुन्दनन्दप्रिया पसुदिशयने शये रुदरि किञ्जिरञ्जल् परे कुन्द नन्दप्रिया प्रसूदि शयने शय सुवधि किञ्जिदं जल्पदे विभूज्यवनिद जने तनयसंभवे गोचिदे किमु वदाम्यकलमाकुलं कतःपशुपन्दिरे त्वयि मुकुन्दनन्दप्रिया प्रसूतिशयने प्रसूतिशयने शये रुदति किञ्चिदञ्च पदे विभुध्य वनि वनिता जनैस्तनयसम्भवे घोषिते नन्द प्रिय जल्पदे ोदया नवकलाय चे दोहरम् अहोय चोदया नवकलाय चेतो भवन्तगे प्रथममा विबन्द्यादृशा भवन्तमलमन्दिगे प्रथममाभि्यादृशा भवतमलमन्त्रिगे प्रथममाविबन्त्यादृशा पुनस्तनबरं निजं सबरिपायन्द्या मुदा पुनस्तनबरं निज ्या मुदा पुनस्तनभरं निजं सपदि पाययन्त्या मुदा मनोहर तनुस्पृशा जगति पुण्यवन्तो जिदानोहर तनुस्पृशा ्यादिशा अहोगलय चोदय नवकलाय चेदोहरं भवन्दमलमन्दिरे प्रथम मां विबन्द्या दृशा अहो कलु यशोदया नवकलाय चेतो भवतमलमन्तिके प्रथममाविबन्त्यादृशा भवन्तमलमन्तिके भवन्तम्लमन्तिके भवन्तमलमन्तिके प्रथममावि मा पिबन्त्यादृश मापिदने मावि अलाय माम्बन्द्या माम, right? मा पिबन्द्या मा पिबन्त्या भवन्तमलमन्तिके okay. ah. प्रथमा बं... पिबन्त्यादृशा पुनस्तनबरं निजं सपरिपायन्त्यामुदा मनोहरतनुस्मि uh -huh. पुण्यबन्तो जिदाः पुनस्तनभरं निजं सपदि पाययन्त्यामुद मनोहर तनुस्पृश जगति पुण्यवन्दो जिदाः पुनस्तनभरं पुनस्तनभरं निजं सपदि पाययन्त्यामुदा मनोहर तनुस्पृशा जगति पुण्यवन्तो जिताः अहोग अहोगलय चोदया नवकलाय चेदोहरम् भवन्तमलमन्दिगे प्रथममाभि भवन्त्या दिशा पुनस्तनबरं निजं सपरिपाययन्त्यामुदा मनोहरतनुस्पृशा जगदि पुण्यवन्तो जिदाहोगलय चोदय नवकलाय चेदोहरम् चे भवन्तमलमन्दिगे परममाभिबन्द्य द्विजा पुनस्तनबर निज सबदि पाययन्द्या मुद मनोगरतनुत्तुज जगदि पुण्यवन्धो विदाग अहो यशोदया नवकलाय चेतो हरं भवन्तमलमन्तिगे प्रथममापिबन्त्या पुनस्तनभरम् निजम् सपदि पाययन्त्यामुदा मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः वन् टु त्रि अहोयशोदय बबल कुशल बबल कुशल काया काम्याया सगलो नन्द गो सदा भवत्कुशल काम्यया सखु नन्द गोपस्तदाङ्गुलोलाय किं न ददाति प्रमोदवर सङ्गुलिला बिजकुलाय प्रमो कलाय वा कुलाय नजकुलाय किं न ददाति किमु न मङ्गलं ते निरे तथैव पशुपालका किमु न मङ्गलं ते निरे जगत्रितल त्वमिह पाहि पामि माय मङ्गल त्वमिह पाहि मा जगत्रितय मङ्गल त्वमिह पाहि मा भवत्कुशलकामस्तदा प्रमोदर सङ्गुलो द्विजकुलाय किं नवकुशलकाम्यया सगुलो नन्द गो बस्तदा प्रमोदभरसङ्गुल द्विजकुलाय किं ना ददात् भवत्कुशलकाम्यया सखलु नन्दगोपस्तदा प्रमोदभरसङ्कुलो द्विजकुलाय किन्ना ददात् तदैव पशुपालका किमु न मङ्गलं ते निरे जगत्तिदयमङ्गल त्वमिह पाहि मां मामयादे तदैव पशुपालक जगद्विदय मङ्गल त्वमि मायात् तथैव पशुपालका किमुन मङ्गलम् ते गिरे जगत्कृतय मङ्गल त्वमिह पाहि मा मामया भवद्भुशलया सगुरुनन्दगोपस्तदा प्रमोदभरसङ्कुरो द्विजकुलाय किं न ददात् तदैव पशुपालग किमु न मङ्गलं ते निरे जगत्विजय मङ्गल त्वमिह पाहि मां मामयादे भवम्यया सकलो नन्दगोस्तदा प्रमोदभरसङ्गुल विजकुलाय तदेव पशुपालक किं मङ्गल ते निरे जगद्रिदय मङ्गल त्वमिह पाहि मा, मा, मा भवत्कुशलकाम्यया सखलु नन्दगोपस्तदा प्रमोदभरसङ्कुलो द्विजकुलाय खिन्ना ददा तथैव पशुपालखा किमु न मङ्गलम् ते निरे जगत्रितय मङ्गल पाहि मामामयात् मा मम यपा माया Darwatra, Gowindhani, Tinam, Govinda, Govinda. Naan ila ta chocalam? Ahaa, nahan ila ta chalhou kwa. Amy, nilay technical... nema elabhally LIES yang kendiальным pinduk cilam的和 do negabhah dari so demek bribu? Oh like spirituality! Sherry, how about? something new record, Allah. בסREMA. tah done, zrobić ourselves, finish ourselves. let me finish, alright. up धुवङ्क बडचालिन मधुवरस्य